गरुडपुरणम् आचारकाण्डम् अध्यायम् तर्टीवण्द्र उवाच भूय एवम् जगन्नाथपूजाम् कथय मे प्रभो ययातरेयं संसारसागरम् ह्यदिदुस्तरम् हरिरुवाच अर्चनं विष्णुदेवस्य वक्ष्यामि वृषभध्वज तच्छृणुष्व महाभाग भुक्तिमुक्तिप्रदम् शुभम् कृत्वा स्नानम् तदः सन्ध्याम् तदो यागगृहम् व्रजेद प्रक्षाल्यपाणिपादौ च आचम्य च विशेषदः मूलमन्त्रम् समस्तं तु हस्तयोर्व्यापकम् मूलमन्त्रं च देवस्य शृणुरुद्र वदामि ते ॐ श्रीं ह्रीं श्रीधराय विष्णवे नमः अयं मन्त्रः सुरेशस्य विष्णोरीशस्य वाचकः सर्वव्याधिहरश्चैव सर्वग्रहरस्तथा सर्वपापहरश्चैव भक्तिमुक्तिप्रदायकः अङ्गन्याः सन्तदः कुर्यां तेभिर्मन्द्रौर्विचक्षणः ॐ हां हृदयाय नमः ॐ ह्रीं हा। शिरसे स्वाहा ॐ हूं शिखायैवषड कवचाय हुं ौ नेत्रयाय वौषट हः अस्त्राय फट इति मन्त्रः समाख्यातो मया ते प्रभविष्णुना न्यासङ्कृत्वात्मनो मुद्राम् दर्शयेद्विजिदात्मवान् पदोऽध्यायेत् परं विष्णुह्रत् कोडरः समाश्रितम् शङ्कचक्रसमायुक्तम् कुन्देन्दुधवलम् हरिम् श्रीवत्सकौस्तुभयुदम् वनमालासमन्वितम् परमेश्वरम् अहम् विष्णुरिति ध्यात्वा वै शोधनाधिकम् यम् क्षौं रमिति बीजैश्च कठिनीकृत्य नामभिः अण्डमुत्पाद्य च तथ प्रणवेनैव भेदयेद् तत्र पूर्वोक्तरूपम् तु भावयित्वा वृषध्वजः आत्मपूजाम् तदः कुर्याद्रन्ध्रपुष्पाब्दिभिः शुभैः आवाह्यपूजय सर्वा देवता आसनस्य याहा याः मन्त्रैरेभिर्महादेवतन्मन्त्रम् शृणुशङ्कर विष्णुवासनदेवता ओम ॐ समस्तपरिवारायाच्युताय नमः ओम धात्रे नमः ॐ विधात्रे नमः ॐ गङ्गायै नमः ॐ यमुनायै नमः ॐ शङ्खनिधये नमः ॐ पद्मनिधये नमः ॐ चण्डकाय नमः ॐ प्रचण्डाय नमः ॐ द्वारश्रियै नमः ॐ आधारशक्र्यय नमः ॐ कूर्माय नमः म् अनन्दाय नमः ॐ श्रिय नमः ॐ धर्माय नमः ॐ ज्ञानाय नमः ॐ वैराग्याय नमः ॐ ऐश्वर्याय नमः ॐ अधर्माय नमः ॐ अज्ञानाय नमः ॐ अवैर्याग्याय नमः ॐ अनै्याय नमः सं सत्त्वाय नमः ॐ रं रजसे नमः ॐ तं तमसे नमः ॐ कं कन्दाय नमः ॐ नालाय नमः ॐ लां पद्माय नमः ॐ अं अर्कमण्डलाय नमः ॐ सों सोममण्डलाय नमः ॐ वं वह्निमण्डलाय नमः ॐ विमलायै नमः ॐ उत्कर्षिण्यै नमः ॐ ज्ञानायै नमः ॐ क्रियायै नमः ॐ योगायै नमः ॐ प्रह्व्यै नमः ॐ सत्याय नमः ॐ ईशाय नमः ओम् अनुग्रहायै नमः गन्धपुष्पादिभिस्त्वेदैर्मन्त्रैरेदास्तु पूजयेद् पूजयित्वा ततो विष्णुम् सृष्टिसंहारकारिणम् आवाह्यमण्डले रुद्रपूजयेत् परमेश्वरं अनेन विधिना सर्वपापहरं परं यथात्मनि तथा देवे न्यासम् कुर्वीद चादिदः मुद्राम् प्रदर्शयेत् पश्चादर्क्यादीनर्पयेत्तदः स्नानम् वस्त्रं वस्त्रम् दद्यादाचमनम् तदः गन्धपुष्पम् तथा धूपम् दीपम् दद्याचरुम् तदः प्रदक्षिणम् तदो जप्यम् तदस्तस्मिन् सर्पयेद अङ्गादीनां स्वमन्त्रैश्च पूजाम् कुर्वीदसाधकः देवस्य मूलमन्त्रेणेत्येवं विद्धिवृषध्वज मन्त्राञ्छृणुत्रिनेत्रत्वम् कथ्यमानान्मयाधुना ॐ शां हृदयाय नमः ं ह्रीं शिरसे नमः ॐ ह्रूं शिखायै नमः ॐ हैं कवचाय नमः ॐ हौं नेत्रत्रयाय नमः ॐ हः अस्त्राय नमः ॐ श्रिय नमः ॐ शङ्काय नमः ॐ पद्माय नमः ॐ चक्राय नमः ॐ गदायै नमः ॐ श्रीवत्साय नमः ॐ कौस्तुभाय नमः ॐ वनमालायै नमः ॐ पीताम्बराय नमः ॐ खडगाय नमः ॐ मुसलाय नमः ॐ पाशाय नमः ॐ अङ्कुशाय नमः ॐ शार्ङ्गाय नमः ॐ शराय नमः ॐ ब्रह्मणे नमः ॐ नारदाय नमः ॐ पूर्वसिेभ्यो नमः ॐ भागवतेभ्यो नमः ॐ गुरुभ्यो नमः ॐ परमगुरुभ्यो नमः ॐ इन्द्राय सुराधिपदये सवाहन परिवाराय नमः ॐ अग्नये तेजोऽधिपदये सवाहन परिवाराय नमः ॐ यमायप्रेदाधिपदये सवाहन परिवाराय नमः ॐ निरहृदये रक्षोधिपदये सवाहनपरिवाराय नमः ॐ वरुणाय जलाधिपदये सवादनपरिवाराय नमः ॐ वायवे प्राणाधिपदये सवाहनपरिवाराय नमः ॐ सोमाय नक्षत्राधिपदये सवाहनपरिवाराय नमः ॐ ईशनाय विद्याधिपतये सवाहनपरिवाराय नमः ॐ अनन्ताय नागाधिपतये नमः ॐ ब्रह्मणे लोकाधिपतये सवाहनपरिवाराय नमः ॐ वज्राय हुं फट् नमः ॐ शक्रियै हुं फट् नमः ॐ दण्डाय हुं फट् नमः ॐ खड्गाय हुं फट् नमः ॐ पाशाय हुं फट् नमः ॐ ध्वजाय फट् नमः ॐ गदायै फट् नमः ॐ त्रिशूलाय फट् नमः ॐ चक्राय फट् नमः ॐ पद्माय पुं फट् नमः ॐ वं विश्वक्सेनाय नमः येभिमन्द्रैर्महादेवपूज्या अङ्कादयो नरैः पूजयित्वा महात्मानं विष्णुम् ब्रह्मस्वरूपिणम् स्तुवेदचानया स्तुत्या विष्णवे देवदेवाय नमो वै प्रभविष्णवे विष्णवे वासुदेवाय नमस्तिकराय च ग्रसिष्णवे नमश्चैव नमः प्रलयशायिने देवानां प्रभवे चैव यज्ञानां प्रभवे नमः मुनीनां प्रभवे नित्यं यक्षाणां प्रभविष्णवे जिष्णवे सर्वदेवानां सर्वगाय महात्मने ब्रह्मेन्द्ररुद्रवन्द्याय सर्वेशाय नमो नमः सर्वलोकहितार्थाय लोकाध्यक्षाय वै नमः सर्वगोप्त्रे सर्वकर्त्रे सर्वदुष्टविनाशिने वरप्रदाय शान्ताय वरेण्याय नमो नमः चरण्याय सुरूपाय धर्मकामार्थदायिने स्तुत्वाध्यायेत्स्वहृदये ब्रह्मरूपिणमव्ययम् एवम् तु पूजयद्विष्णुम् मूलमन्त्रेण शङ्कर मूलमन्त्रम् जपेद्वापि यत्सा यादिनरोहरिम् एदत्ते कथितम् रुद्र विष्णोर्चनमुत्तमम् रहस्यम् परमम् गुह्यम् भुक्तिमुक्तिप्रदम् परम् यदद्यच्छेद्विद्वान् विष्णु भक्तः पुमान्हर शृणुयात्रावयेद्वापि विष्णुलोकम् स गच्छति इति श्रीगारूढे महापुराणे आचारकाण्डे विष्णुपूजा विधिर्ना मैकत्रिंशोऽध्यायः ओम्